अथ पञ्चाशः सर्गः तम् शब्दमव सुप्तस्तु जटायुरथशुश्रुवे निरैक्षद्रावणम् क्षिप्रम् वैदेहीम् च ददर्शसः ततः दशग्रीवस्थितो धर्मे सत्यसंश्रयः भ्रातस्त्वम् निन्दितम् कर्म कर्तुम् नार्हसि साम्प्रतम् जटायुर्नामनाम् नाहम् गृध्रराजो महाबलः राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः लोकानाम् च हिते युक्तो रामो दशरथात्मजः तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी सीतानामवरारोहायाम् त्वम् हर्तुमिहेच्छसि कथम् राजा स्थितो धर्मे परदारान् परामृशेत् रक्षणीया विशेषेण राजदारा महाबला निवर्तय गतिम् नीचाम् परदाराभिमर्शनात् न तत्समाचरे धीरो यथात्मनस्तथा अन्येषाम् दारा रक्ष्या विमर्शनात् अर्थम् वा यदि वा कामम् शिष्टा शास्त्रेष्वनागतम् व्यवस्यन्त्यनुराजानम् धर्मम् पौलस्त्यनन्दना राजा धर्मश्च कामश्च द्रव्याढाञ्चोत्तमो निधिः धर्मः वा पापम् वा राजमूलम् प्रवर्तते पापः स्वभावश्च पलः कथम् त्वम् रक्षसाम् वरा ऐश्वर्यमपि सम्प्राप्तो कामस्वभावो यस्यसौ नशक्यस्तं शक्यस्तम् प्रमार्जितुम् न हि दुष्टात्मनामार्यमापसत्यालये चिरम् विषये वा पुरेवाते यदा रामो महाबलः नापराध्यति धर्मात्मा कथम् तस्यापराध्यसि यदि शोर्पण खा हेतुर्जन स्थानगत खर अतिवृत्व राण अ्रूह यथात को राक्रम योकनाथ से भार्गम्यसी क्षिप्र विसृज वैदे महात् घोण चक्षुषा दहे दहेद्दहनभूतेन वृत्रमिन्द्राश निर्यथा सर्पमाशीविषम् बद्ध्वा वस्त्रान्तेनावबुध्यसे ग्रीवायाम् प्रतिमुक्तम् च कालपाशम् न पश्यसि स भारः सौम्यभर्तव्यो यो नरम् नावसादयेत् तदन्नमपि भोक्तव्यम् जीर्यते यदनामयम् यत्कृत्वा यद न शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् षष्टिवर्षसहस्राणि जातस्य मम रावण पितृपैतामहम् राज्यम् यथावदनुतिष्ठतः वृद्धोऽहम् त्वम् युवाधम्बी सरथः कवची शरी न चाप्यादाय कुशली वैदेहीम् गमिष्यसि न शक्तस्त्वम् बलाद्धर्तुम् मम पश्यतः हेतुभिर्न्याय संयुक्तैर्ध्रुवाम् वेदश्रुतीमिव युध्यस्व यदि शूरोऽसि मुहोत्तम् तिष्ठरावणा शयिष्यसे हतो भूमौ यथा पूर्वम् खरस्तथा असकृत्संयुगे येन निहता दैत्यदानवाः न रामो युधि वधिष्यति किम् गतौ दूरम् क्षिप्रम् त्वम् नश्यसेनी च तयोर्भीतो न जीवमानस्य नयिष्यसि शुभामि माम् सीताम् रामस्य महिषीम् प्रियाम् अवश्यन्तु मया कार्यम् तस्य महात्मनः जीवितेनापि रामस्य तथा दशरथस्य च तिष्ठतिष्ठदश अग्रीव पश्य रावणा वृन्तादिव फलम् त्वाम् तु पातयेयम् रथोत्तमात् प्राणम् निशाचर इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे पञ्चाशः